मधुरं संकीर्तमाला मधुर आम् त्वा गणपतिकम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्हुधिभिः सीदसादनम् ॐ श्री महागणपतये नमः प्रणो देवी सरस्वती वाचेनामपि त्यवतु वाम तीयतो सोमम रामरातीयतो निदहातिवेदः निदहातिवेदवेदः जातवेदसे सु न वाम सोम मरातीयतो निेदः जातवेदवेदसे सु न वाम सोम मरातीयतो नितिवेदः दुर्गाणि विहाणि विश्वा दुर्गाणि विश्वा विश्वा ुरितात्यग्निः वारुरेव कम्प्लीट् सेण्टेन्स् वन् सन् स्पर्शदति दुर्गाणि विश्वा नावेव सिन्धुन्दुरितात्यग्निः तपसा ज्वलन्तीम् तपसा ु जुष्टा ु जुष्टाजुष्टा ताम् अग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा आम। ताम दुर्गाम् देवीम् शरणमहम् प्रपद्ये दे तरसि तरसे सुतरसितरसे तर दुर्गाम् देवीम् शरणमहम् प्रबद्ये सुतरसि तरसे नमः शरणमहम् प्रभवेरसितरसि तरसे नमः अस्मान् मान् स्वजति अस्मान् अस्मान् स्वजति पिरति दुर्गाणि अग्ने त्वम् पारय्या नव्यो अस्मान् स्वस्ति भिरति दुर्गाणि विश्वाम् अग्ने त्वम् पारयानस्य विश्वा पूश्च पृथ्वी बहुलान उर्वी ृथ्वीश्च प्रधायुलाल उर्वी पूश्च प्रभव्याहुलाल उर्वी भवातो गायतनयायशयोः भवा भवायतनयायनयशयो भवातो भवायतनयायनयायशयो श्च पृथिवी बहुलान उर्वे पवा तोकायतनयायशयोः शिव पृथिव्या बहुलान उर्वान् पवाय तनयायशो संयो संयोः संयो नेक्स्ट् टैम् बि केर्फुल् विश्वानिनु दुर्गहा जादवेदः सिन्धुन्न नावा, नावा दुरिदातिपर्षिवारिता विश्वानि नो दुर्गहा जादवेधः सिन्धुन्ननावा तुरितातिपर्षि ेवी जस्टु अण्ट् फ्रोम् बिगिनिङ्ग् टिल् हियर्ड् देन् सी हौ दोस् एबडि वाण्ट् टु ट्रै ओन् दियर्न् ति यतो निदहाति वेदः सनः पर्षदति दुर्गानि विश्वा नावेव सिन्धुं दुरिता दुरुतात् म् बिकाण्ड् इस्कार इस् बिकम् इम् अग्नि इस् कम्स् इण्ड् इस् अश् सिन्धुरिः सो इण्ड् धुम् Okay. They, because there will be a sandhi there, even though it's not uh, very evident from the printing, it will become okay. na-veva-sindhundhuri-da-tyagni-hi. The fifth letter of the da, um, varga is ta-tha-da-dha-na, is nakara. So it becomes sindhundhuri-da-tyagni-hi. Okay? Okay. So okay. Sindhundhundhuri-da-tyagni-hi. The dot is not always pronounced im, sometimes it becomes huh. in. in this case, the sound, because letter following is a uh, Tavarga, so it becomes Na-veva-sindun-dhurita-tyagnihi. Okay. Na-veva-sindun-dhurita-dhurita-tyagnihi. tyagnihi Okay, दुरिता त्यग्निः Atyagnihi is the Na thing, babe. because the because Durita is uh, there, so the akara will be very, very short and not, uh, it's just big light over it. It's a symbol there, it just says the akara is uh, elided, it's not uh, printed, okay, it's not pronounced okay. very clearly, so it becomes a Durita Atyagnihi, it will be Durita Atyagnihi, but uh, since it's uh, uh, both are combined, Durita Atyagnihi, okay. निवर्णां okay. तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा जुष्टा आम दुर्गाम् हम् प्रपद्ये सु अग्ने त्वम् पार यानव्यो अस्मान स्वस्ति बिरति दुर्गानि विश्वा पृथ्वीश्च पुश्च पुश्च पृथ्वी बहुलान ऊर्वी भवा तोकाय तनयाय शय्योः विश्वानिनो दुर, दुर्गह जातेदह सिन्धुम् न नावः दुरीतादि पर्शी ओके वन थिंग द जातेदह देयर इज अ विसर्ग देयर राइट ओल्ड बाय स्कारा बिकम्स द डबल स्कारा बिकम्स जातवेदह वयतसिन्धुम् ओके सेम सेम थिंग वी लर्न अर्लियर आल्सो दुर्गहा दुर्गः जातवेदसिन्धुम् ुरितादि पर्शिबिस् एवरिबडि वास् कम्फर्टबिल् वित् दिस् हून् टु ट्रै Oh, uh, I just joined late, so Harry, can you okay. try? I listen, like okay. I will listen to it. Okay. No problem. Harry, you can listen to a couple of people chanting and then uh, see. Okay. Does anybody else want to try? It's okay to make mistakes. That's how we are learning, so. You can try. can someone try we'll go ahead ha okay. hari okay. i think somebody said they want to try oh who i didn't hear it sorry i did okay. shilama yeah. okay. thank you go ahead yaa so medase nilam ago namo nidm radate kayato nidahadi vedo radati yato soma marati yato nidahadi vedaha nasa दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः तामक्तिवर्णां तपसाजलिं वैरोचनीं कर्मफलेषु दुष्टां दुर्गां देवीहं शरणमहं प्रभत्ते सुतरसितर सुत सुतरसि is one word, Tharase is another word, Namaha. So the break should be Sutharasi and then okay. after that is Tharase. So don't say Sutharasi is Tharase. So okay. it's Sutharasi. Tharase is Namaha. Sutharasi, Tharase, Namaha Netham, Paraya, Navyo, Asman Swastri, Virati, Vikani, Vishwa Vishla, Priti, Priti, Priti कहु नंगना उरीभि भवातोकाय तनयय पनयाय संयो विस्वाहिनम तनयायशयोह तोपाय संतनयाय सिंयो नो नो इट्स ओनली वन ओहो बट इट्स दीर्घ इट्स नॉट इट्स तनयायशयोह is is always double two two matras in in in Sanskrit, Sanskrit. okay? So it's not one. one There there okay. no like in Malayalam and Tamil there are two O's. only ओ इस् आल्स् डबल् टु मात्रा इन् संस्कृतं इन् मलयालम् अमिळ् दि आर् टुयाङ्गो सं य सतनयाय संयो विश्वानि नो दुर्गा हा जादवेद सिन्धुन्न वा दुरिताधिपशिन्धुन्न नावा दुरितातिपश्चे ति यतो निर्षदति दुर्गाणि विश्वा नावेव सिन्धुन् दुरितात् ग्निः ताम् अग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा आम् दुर्गाम् देवी गुम् शरणमहम् प्रपद्ये सुतरसितरसे नमः अग्नेत्वं पारयानव्यो पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ूश्च पृथिवी बहुलानी भव तोकायतनयाय संयोः पूश्च पृथ्वीन् ृथ्वी बहुलानी भवाय तनयाय शय्यो विश्वानिनो दुर्गः जातवेदसिन्धुन्न ॐ जातवेदशे सुनम सुनमा, सुनमा वसो नमराद्य निवेदः सुनपशतदुर्गाणि विश्व आवेदसुन्दर्गाशी तां अग्निवर्णां सपसा ज्वलन्ति वैरोमि कर्म बले शुचि दुर्गां वे रेणशरणमेव सुदर सुदरसे नमः अस्मे त्वं पालय ने अस्मान् श्रे श्रेरगाणि विश्वा आ. अग्ने त्वं पार्या नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा दुर्गाणि <laughs> विश्व विश्वाच पृथ्वी बहुलान् पूर्वीकाय तनयाय sayo vishvanino tiggaha yadaveda singum anavadurasadisate okay good anybody else want to try कृस्माकं okay. uh, बोध्यपिता तनूना बोध्यपिता तनूनाम् अग्ने अग्ने अत्रिवन्मनसा कृता तनु जितम् सहमानमुग्रमग्नि सहमानमुग्रमग्निम जिदकुम् सहमानमुग्रमग्निगुम् हुवेम कृतनाचित् सह मालमेव ेवो अतिदुरितात्यग्निः <thail> <t Happens ahead> स नः स्पर्षदतिदुर्गाणि विश्वा क्षामद्धेवो अतिदुरितात्यग्निः नः पश्यति नृ प्रत्नोषिकमेढ्यो नव्यश्च सखसि नव्यश्च ेषु सनाच्च होता नव्यश्च सत्सी रत्नो शिखमेढ्यो अध्व सन्ति प्रनो जग ून् ओके प्रत्नोकमीढ्यो अध्व ेषु सना च होता नव्यश्च सद्धि <dış> aring... <प्षारी> <प्षारी> <प्षारी> आग्ने तनुवम् Mancha Agni Tanu Vam Mancha Agni Tanu Vam Phipraya Swa Sma Bhyam Phipraya Swa Sma Bhyam Phipraya Swa Sma Bhyam स्वात्मभ्यं तिप्रात्मभ्यं च सौभगमायजस्व भजगमायजस्व भज स्वाय भगमायजस्वल् स्वां च आग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्वञ्चानु सौभाग्यमायजस्व स्वाञ्च लैन् अगेन् शुर् विल् डू इ आग्ने तनुवं पिप्रयस्वास्मभ्यं long long long long long long long long long long long long long long long is that okay for everybody the first time yes. yes. okay just so bug am I yet just were so so over girl are you just small लेट्स् डु दैन् टु वन् के आल् से दोल् लैन् अण्ड् देन् यु गेट् रिपीट् वैस् स्वाञ्च आग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व स्वाचने तनुवं स्वायज स्वाचाग्ने तनुवं पिप्रय स्वा सौभग मायजस्वा ओकेरक्स् युजो निषिक्तं निषिषिक्तं निषिक्त गोभिर्जुष्टमयुजो निषिक्तम् गोभिर्जुष्टमयुजो निषिक्तम् तवे एन्द्र नु सञ्चरेमावेन्द्रिष्णो रनुरेमावेन्द्रविष्णो रनुसरेमा लैन् टुगेदर् गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनु सञ्चरेमा गोभिर्जुष्टमयुजो निषिक्तम् वि तवेन्द्र विष्णोरनुसंचरेमा <Sings> Is that okay? Okay. ु सञ्चरेम जन ओके ओके नाकस्य पृष्टमपि संवसानो वैष्णवीं लोक इहमादयन्ताम् लोकमादयन्ताम् डु दट् लैन् कम्प् फुल् लैन् नाखस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इहमादयन्ताम् नाकस्य कृष्णमपि सम्भानो वैष्णवी वैष्णवक इष मादयन्ताम् Okay, um, does anybody want to try the uh, second half we uh, studied, starting with Agni Atrivan Manasa, Silmada Yantam. Shall I try? Yeah, sure. Go ahead. Uh, Agni Atrivan Manasa, Guru Nanu, Smokkam, बोध्यभिता तनु ना पृतनाजितगुं सहमानमुग्रमग्निगुं कुमेव परमात् सदस्तात् सदस्तात् स्पर्शदति दुर्गाणि विश्वा शामदेवो अतिदुरितात्यग्निः रत्नोषिक मीड्यो अध्वरेषु सना च होता नभ्यश्च सत्ति स्वान् चाग्नि तनुवं पिप्रयस्वा वास् वाभ्यं च सौभाय स्वास् पिप्रयस्वास्मभ्यं च सौभाग च सौभग मायजस्व गोपिर्जुष्टमयूजो निषिक्तं तवे एन्द्र विष्णो रणुसञ्चरेमा नाकस्य पृष्टमभि संभसानो तं, वैष्णवीम् गुड् ऐड् देट् सो ऐ केन् गो ओकेडि ओन् अग्ने अत्रिवन् मनसागृणा भोद्यपिता तनूना आम् पृतनाजितगुम् सहमानमुग्रमग्निगुम् पुमेम परमास्तदस्ता आत् स नः पश्यदतिदुर्गाणि विश्वा क्षाम देवो अतिदुरितात्यग्निः प्रत्नोषि कमीडो अध्वरेषु सना च होता नव्यश्च सत्रि स्वाञ्चा आग्ने तनुवम् पिप्रयस्वास्मव्यम् च सौभगमा यजस्व गोभिर्जुष्टमयुजो निषिक्षम् तवे एन्द्र विष्णोरनुसंचरेम नाकस्य पृष्टमभिषम्वसानो वैष्णवी लोक इह मादयन्ताम् लास्ट्बिल् नो ऐक् इन् ओम् धीमहि ॐ आय विद्महे नार्यायिमही धीमहे तन्नो दुर्गिः प्रचोदयात् तन्नो दुर्गी प्रचोदयादयात् तन्नो दुर्गो दुर्गिः shall we uh, try to do the whole thing together because we studied it let's all do it once together slowly and then if there's a problem then we can uh, look at that okay if there's any getting stuck or something are you ready yes yeah. okay 1 2 3 ॐ ओतवेमरामरात्येतः पश्यति पुराणि व्या मन्त्रिमरदालन्ती वै रोचनी कखमगे दृष्टाम् दुर्गाम् शरणमां श्रवति शरसि शरते नमः अय्यानसि दिनि देवानृवीवायुव्याय नैव विश्वाशनाभुरिता पर्शी अकं सुदातनाम् पमायमेषु परमाल परमाद आत् तन्न शदृष्काय श्वा शामस्ते निष्कास्यः च स्वाच <literalness> <BTS> चुष्क्रमयुजो निषन्तो हनुवञ्चरेमाकर्यो वैनदै समादयन्ताम् ीमहि प्रचोदयात् वन् ऐ केन् ट्रै ओके जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः स नः स्पर्षदति दुर्गानि विश्वा दुरिता ता दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा आम् दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसितरसे नमः अग्ने त्वं पार अस्मान् स्वस्ति दुर्गानि विश्वाश्च पृथ्वी बहुलान ऊर्वि भवा तोकाय तनयाय शयो शयोः शयोः oh, विश्वानिनो दुर्गः जातवेदस्सिन्धुन् न वा पर्शी अग्ने mm -hmm. मनसा गुरुनानो माकम् बोध्यविता तनू नाम् ऋतनाजितगुं सहमानमुग्रमग्निगुं हुमेव परमात् सदस्तात् स नः पर्षदति दुर्गानि विश्वा शाम ेवो अतिदुरिताध्यग्निः प्रत्नोश्चिकमेढ्यो अध्वरेषु सना च होता नव्यश्च सत्सि स्वाञ्चाग्ने स्वाञ्चा आग्ने प्रय स्वास्मभ्यं पिप्रय स्वास्मभ्यं च सौभाग मायजस्व यचोपिजुष्टमयूजो निषिक्तं तवे एन्द्र विष्णो रनुसञ्चरेमा नाकस्य वसानो वैष्णवीम् लोक इहमादयन्ताम् ॐ कात्यायणाय विद्महे कन्याकुमारि धीमहि कन्यकुमारि कन् कन्यकुमारिकन्यमारि ओके कन्यकुमारि धीमहि तन्नो दुर्गे दुर् दुर्गी तन्नो दुर्गीः प्रचोदयात् प्रचोदयात् बिकात् ओके तन्नो दुर्गिस् प्रचोदयात् दिस् इ स्मोल् वन् ओके सो इ so if, if nobody wants to try we can uh, stop here i can send the recording and we can uh, say rogaha samstaha and stop here uh, and we are done it. next week we'll start with uh, arghala stotra okay Okay, everybody. Okay. Uh, yes. Okay. Okay, let's do three Om um. Namah Shivaya. Let's start there. Om Namah Shivaya. Om Namah Shivaya. लोका नमस्कार बाबांतो लोका नमस्कार नमस्कार बाबांतो शान्ति शान्ति शान्ति श्री ज्ञानम चतुरी